गर्गसंहिता खण्डं त्रिगिरिराजखण्डम् अध्यायं वन् गिरिराजखण्डप्रथमोऽध्यायः श्रीगिरिराजपूजाविधिवर्णनं बहुलाश्व उवाच दधार दधारभगवान् गिरिं गोवर्धनं वरम् उच्छ्रिलीन्ध्रं यथा बालोहस् तेनैकेन लीलया परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः वदैतच्चरितं दिव्यमद्भुतं श्री नारद उवाच वार्षिकं हि करम राज्ञे यथा शक्राय वै तथा बलिं दधुः प्रावृणन्ते गोपाः सर्वे कृषीवलाः महेन्द्रयागसम्भारचयम् दृष्ट्वैकदा हरिः नन्दम् पप्र सदसि वल्लभानाम् च शृण्वताम् श्रीभगवानुवाच शक्रस्य पूजनम् ह्येतत्किम् फलम् चास्य विद्यते लौकिकं वा वदन्त्ये ददथवा पारलौकिकं श्रीनन्द उवाच शक्रस्य पूजनं ह्येदद् भुक्तिमुक्तिकरं परं ये भूमौ जायतेन सुखी क्वजिद श्रीभगवानुवाच शक्रादयो देवगणश्च सर्वतो भुञ्जन्दिये स्वर्गसुखम् स्वकर्मभिः विशन्दिते मर्त्यपदं शुभक्षये तत्सेवनम् विद्धिनमुक्तिकारणम् भयं भवेद्वै परमेष्ठिने यतो वार्तातुकाकौ किल तत्कृदात्मनां तस्मात् परं कालमनन्तमेव हि सर्वं बलिष्ठं सुबुधा विदुः परे तदस्तमाश्रित्य सुकर्मभि परं भजेद्धरिं यज्ञपदीं सुरेश्वरं विसृज्य सर्वं मनसा कृते फलं व्रजेत् पर मोक्षमः धर्मश्च यज्ञाधिपदेर्विभूतयः धिष्ण्येषु चैतेषु हरिं भजन्ति ये सदा त्विहात्रसुखं व्रजन्ति ते समुद्धितो सौ हरिवक्षसो गिरिर्गोवर्धनो नाम गिरीन्द्रराजराट समागतो ह्यत्र पुलस्त्यतेजसा यद्दर्शनाज्जन्म पुनर्न विद्यते सम्पूज्य गोविप्रसुरान्महाद्रये दातव्यमद्यैव परं ह्युपायनं येष प्रियो मे मखराजयेव हि न चेद्येच्छास्ति तथा कुरुव्रज श्रीनारद उवाच तेषाम् मध्ये दसन्नन्दो गोपो वृद्धो दिनिदिविद अतिप्रसन्न श्रीकृष्णमाहनन्दस्य शृण्वदः स नन्द उवाच हे नन्दसूनो हे तात त्वं साक्षात् ज्ञानशेवधिः कर्तव्याखेन विधिना पूजाद्रेर्वदः श्रीभगवानुवाच आलिप्य गोमयेनापि गिरिराजभुवं ह्यथः धृत्वाधसर्वसम्भारम्भक्तियुक्तो जितेन्द्रियः सहस्रशीर्षामन्द्रेणाद्रये स्नानं च कारयेद् गङ्गाजलेन यमुना जलेनापि द्विजै शुक्लगो दुग्धधाराभिस्ततः पञ्चामृतैर्गिरिं स्नापयित्वा गन्धपुष्पैः पुनः कृष्णाजलेन वै वस्त्रं दिव्यं च नैवेद्यमासनं सर्वतोधिकं मालालङ्कारनिचयं दत्त्वा दीपावलिं पराम् तदप्रदक्षिणां कुर्यान्नमः कुर्यात्तपरं कृताञ्जलिपुडो भूत्वा त्विदमेदुदीरयेद नमो वृन्दावनाङ्काय तुभ्यं गोलोगमौलिने पूर्णब्रह्मास्तपत्राय नमो गोवर्धनाय च पुष्पाञ्जलिं तदः कुर्यान्नीराजनमधः परम् खण्डकांस्य मृदङ्गाद्याैर्वादित्रायैर्मधुरस्वनैः वेदाहमेदम् मन्द्रेण वर्षणाजैः समाचरेद तत्समीपे चान्यकूटं कुर्या श्रद्धा समन्वितः कचोलानां चतुःषष्टिपञ्चपङ्क्जिसमन्वितं तुलसीदलमिश्रैश्च श्रीगङ्गायमुनाजलैः षट्पञ्चाशत्तमैर्भागै कुर्यात् सेवां समाहितः तदोऽग्नीन् ब्राह्मणान् पूज्यगासुरान् गन्धपुष्पकैः भोजयित्वा द्विजवरान् सौगन्धैर्मिष्टभोजनैः अन्येभ्य शाश्वपाकेभ्यो दद्याद् भोजनमुत्तमम् गोपी गोपालवृन्तैश्च गवाम् नृत्यम् च कारयेत् मङ्गलैर्जयशब्दैश्च कुर्याद् गोवर्धनोत्सवम् यत्र गोवर्धनाभावस्तत्र पूजाविधिम् शृणु गोमयैर्वर्धनम् कुर्यात्तदा परम् परोन्नतम् पुष्पव्यूहैर्लता जालैरिषिकाभिः समन्वितः पूजनीय सदा मर्त्यायिर्गिरिर्गोवर्धनो भुवि शिलासमानं पुरडं क्षिप्त्वाद्रौ तच्छीलां नयेद् गृह्णीयाद्यो विना स्वर्णं समहारौरवं व्रजेद दे। शालग्रामस्य देवस्य सेवनं कारयेत् सदा पादकं न स्पृश्यत् तं वै पद्मपत्रं यथा जलं गिरिराजशिलासेवां ह्यः करोति द्विजोत्तमः सप्तद्वीपमहीतीर्था वगाहफलमेधिसः गिरिराजमहापूजां वर्षे वर्षे करोति यः इह सर्वसुखं भुक्त्वा मुत्रमोक्षम् याति सः इति श्रीगर्गसंहितायाम् श्रीगिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे श्रीगिरिराजपूजाविधिवर्णनम् नाम प्रथमोऽध्यायः ओम् अध्यायम् तु गिरिराजखण्डद्वितीयोऽध्यायः गिरिराज गिरिराजमहोत्सववर्णनम् श्रीनारद उवाच श्रुत्वा भजोनन्दसुदस्य साक्षाच्छ्रीनन्दसन्नन्द वराव्रजेशाः सुविस्मितापूर्वकृतम् विहाय प्रचक्रिरे श्रीगिरिराजपूजा त्वा बलिन्मैथिलनन्दराजः सुधौ समानीय च रामकृष्णौ यशोदया श्रीगिरिपूजनार्थम् समुत्सको गर्गयुधः प्रसन्नः त्वरम् समारुह्य गजं विचित्रवर्णम् धृतहेमशृङ्खलं गोवर्धनान्तम् प्रययौ गवाम् गुणैः शरद्खनैः शक्र इव प्रियायुधः नन्दोपनन्दा वृषभानुवश्च पुत्रैश्च पौत्रैश्च सहाङ्गनाभिः समाय युश्रीगिरिराजपार्श्वम् सर्वम् समानीय जयज्ञभारम् सहस्रबालार्क परिस्फुरद्युतिमारुह्य राधा शिबिकां सखी गणैः सखीव दिव्याम्बरत्नभूषणा बभौ भ्रमरी समाकुला समागदे पार्श्वगदे स्वलङ्कृदे राजन् सखी कोडिम समावृदे परे सख्यौ विपादे ललिता विशाखे चन्द्रानने चालित चारु चामरे एवं रमा वै विरजा च माधवी माया च कृष्णानृप जग्नुनन्दिनी च तथा षोडश सख्यश्च तासां किल यूध श्रीमैथिलानां किल कौसलानां तथा श्रुतीनां ऋषिरूपकाणां तथा त्वयोध्यापुरवासिनीनां श्रीयज्ञसीतावनवासिनीनां रमादिवैकुण्ठनिवासिनीनां तदोर्ध्ववैकुण्ठनिवासिनीनां महोज्वलद्वीपनिवासिनीनाम् ध्रुवादिलोकाचलवासिनीनाम् समुद्रजादिव्यगुणत्रयाणा मदिव्यवैमानिकजौषधीनाम् जालम् धरीणाम् च समुद्रकन्या बर्हिष्मदीजासुतलस्थितानाम् तदाप्सरः सर्वभणीन्द्र जानामासां च युधा व्रजवासिनीनां समाययुः श्रीगिरिराजपर्श्वं स्वलङ्कृता पाणिबलिप्रदीपाः गोपाश्च वृद्धाशिशवो युवानः पीताम्बरोष्णीषक बर्षमण्डिताः श्रीकारगुञ्जावनमालिकाभीरेजुसमेधानवयष्टिवेणुभिः श्रुत्वत्सवं शैलवरस्य मन्मुखात् गङ्गाधरो बद्धकपर्दमण्डलः कपालभृन्नस्ति जभस्मरूषितः सर्पालिमालावलयैर्विभूषितः तत्तुरभङ्गाविषपानविह्वलो हिमाद्रिपुत्री सहितो गणावृदः आरुह्यनन्दीश्वरमादिवाहनं श्रीगिरिराजमण्डलं राजर्षि विप्रर्षि सुरर्षयश्च सहस्रशो गोवर्धनो विप्रगणसमेताः गोवर्धनोरत्नशिलामयोऽभूत् सुवर्णशृङ्घैपरिदस्फुरद्भिः मत्तालिभ्यैर्निर्झर सुन्दरीभ्येर्दरीभिरुच्चाङ्गकरीवराजन् तदैव शैला किल मूर्तिमन्दः सोपायना मेरु हिमाचलाद्याः नेमुर्गिरिम् मङ्गलपाणयस्तम् गोवर्धनम् रूपधरम् गिरीन्द्राः द्विजैश्च गोवर्धनदेवपूजनम् कृत्वा च्युतोक्तम् द्विजवह्नि गोधनम् सम्पूज्य धृत्वा सुधनम् महाधनम् बलिम् ददौ श्रीगिरये व्रजेश्वरः नन्दोपनन्दैर्वृषभानुभिश्च गोपीगणैर्गोपगणैः प्रहर्षितः गायद्भिरानर्त नवाद्य तत्परैश्च कार्यकृष्णोद्रिवरप्रदक्षिणाम् देवेषु वर्षत्सु च पुष्पवर्षम् जनेषु वर्षत्सु च रजे महाराज इध्वरे जनैर्गोवर्धनो नाम गिरीन्द्रराजराड कृष्णोऽपि साक्षाद्व्रजशैलमध्याधृत्वादिदीर्घम् किल चान्यरूपं शैलोऽस्मि लोकानि दिभाषयन् सन् जपास सर्वं कृतमन्नकूटं गोपालगोपीगणवृन्दमुख्या कूचुस्वयम् वीक्ष्य प्रभावं प्रभावम् दादुं वरम् तत्र समुद्यदन्तम् सुविस्मिदाकर्षितमानशास्ते ज्ञातोऽसि गोपैर्गिरिराजदेवः प्रदर्शितो नन्दसुदेन साक्षाद नो गोधनम् वा किल बन्धुवर्यो वृद्धिम् समायातु तथास्तु चोक्त्वा गिरिराजराजो गोवर्धनो दिव्यवपुर्दधानः किरीडकेयूरमनोहराङ्गः क्षणेन तत्रान्तरधीयताराद नन्दोपनन्दा वृषभानवश्च बलस्तु चन्द्रो वृषभानुराजः श्रीनन्दराजश्च हरिश्च गोपा गोप्यश्च सर्वा निजगोधनैश्च द्विजाश्च योगेश्वरसिद्धसङ्घाः शिवादयश्च अन्यजनाश्च सर्वे नत्वाथ सम्भूज्य गिरिम् प्रसन्नाः स्वं स्वम् गृहम् जग्मुरनिच्छया च श्रीकृष्णचन्द्रस्य परम् चरित्रम् गिरीन्द्रराजस्य महोत्सवम् च मया तवाग्रे कथितम् विचित्रम् नृणाम् महापापहरम् पवित्रम् इति श्रीगर्गसंहितायाम् श्रीगिरिराजखण्डे श्रीनारद बहुलाश्वसंवादे गिरिराजमहोत्सववर्णनं नाम द्वितीयोऽध्यायः ओम् अध्यायम् त्रि गिरिराजखण्डतृतीयोऽध्यायः इन्द्रयज्ञभङ्गम् तथा गोवर्धनधारणम् श्रीनारद उवाच अथ मन्मुखतश्रुत्वा स्वात्मयागस्य नाशनम् गोवर्धनोत्सवम् जातम् कोपम् चक्रे पुरन्दरः साम्वर्तकं नाम गणं प्रलये मुक्तबन्धनम् इन्द्रो व्रजविनाशाय प्रेषयामास सत्वरम् अथमेघगणा क्रुद्धा द्वन्नं तश्चित्तवर्णिनः कृष्णा धा पीदभा के जित् के जि इन्द्रगोपनिभाक् केजित् केजित् कर्पूरवत्प्रभाः नानाविधाश्च ये मेखानीलपङ्कजसुप्रभाः हस्तितुल्यान्वारिबिन्दून् वभृषुस्ते मदोद्धताः हस्ति शुण्डास्समाभिश्च धाराभिश्चञ्चलाश्च ये निपेधु कोडिष चाद्रिकूटतुल्यो परा भृश्यं वादाववभुः प्रचण्डाश्चक्षेपयन्तस्तरून् गृहान् प्रचण्डा वज्रपादानां मेखानामन्धकारिणाम् महाशब्दो भवद्भूमौ मैथिलेन्द्रभयङ्करः ननादतेन ब्रह्माण्डं सप्त लोकैर्बिलैः विचेलुर्दिग्गजास्ताराख्यपदन् भूमिमण्डलं भयभीदा गोपमुख्या सकुटुम्बा जिगीषवः शिष्यून् स्वान् स्वान् पुरस्कृत्य नन्दमन्दिरमाययुः श्रीनन्दनन्दनं नत्वा परमेश्वरं परमेश्वरम् उचोर्व्रजौकस सर्वे भयार्ता शरणम् गताः गोपावूचुः राम राम महाबाहो कृष्णकृष्णव्रजेश्वर पाहि पाहि महाकाष्ट दीन्द्र दत्तान् निजान् जनान् हित्वेन्द्रयागं कृदो गोवर्धनोत्सवः अद्य चक्रे प्रकूपिदे कर्तव्यं किं वदाशुनः नारद उवाच व्याकुलं गोकुलं वीक्ष्य गोपी गोपाल गोपालसङ्कुलं सवत्सकं गोकुलं च गोपानाः निराकुलः श्रीभगवानुवाच मा भैष्ट यादाद्रितडं सर्वैपरिकरैः सह भक्पूजा प्रहृदयेन सरक्षाम्सं संविधास्यति श्रीनारद उवाच युत्युक्त्वा स्वजनैः सार्धमेत्य गोवर्धनं हरिः समुत्पाट्य दधा राद्रिम् हस्तेन इगेन लीलया यथोचिनीन्द्रं शिशुरश्रमोगजः स्वपुष्करेणैव च पुष्करं गिरिम् धृत्वा बभौ श्रीव्रजराजनन्तनः कृपाकरोसौ करुणा मय प्रभुः अधाह गोपान्विशदाद्रिगर्दम् सोपस्करै सोपस्करैः सर्वधनैश्च गोभिरत्रैव चक्रस्य भयं न युद्धम् हरेर्वच श्रुत्वा गोपागोधनसंयुताः सकुटुम्बोपस्करैश्च विविशुश्रीगिरे स्थलम् वयस्या बालक सर्वे कृष्णो कृता सबला नृभ स्वाम् स्वांश्च लगूडानद्रेरवष्टम्भान् प्रचक्रिरे जलौकमागतम् वीक्ष्य भगवांस्तद्गिरेरथः सुदर्शनम् तथा शेषम् मनः साज्ञाम् चकारः कोडिसूर्यप्रभम् चाद्रेरूर्ध्वम् चक्रम् सुदुर्शनम् धारा सम्पादमपि बदग्धस्य इव मैथिल अधोद्धस्तम् गिरे शेषकुण्डली भूत आस्थिदः रुरोद तज्जलम् दीर्घम् यथा वेला महोदधिम् सप्ताकम् सुस्थिरस्तौ गोवर्धनधरोहरिः श्रीकृष्णचन्द्रम् पश्यन्तश्चकोरा युव ते स्थिताः मत्तमैरावदं नागं समारुह्य पुरन्दरः सैन्यक्रोधसंयुक्तो व्रजमण्डलमाय यौ दूराचिक्षेपवज्रं स्वं नन्दगोष्ठजिखांसया स्तम्भयामासशक्रस्य सवज्रं माधवो भुजं भयभीदस्तदा शक्रः दुद्रावसहसा देवैर्यधे भ सिंहदाडिदः तदैवार्कोदयो जादो गदामेकायिदस्तदः वाता उपरदा सद्यो नद्यस्वल्पजला नृप विपं कम्भूतलम् जादम् निर्मलं कम्बभुवः चतुष्पर्धाः पक्षिणश्च सुखमापुस्ततस्तदः हरिणोक्तदास्तदा गोपा निर्ययुर्गिरिगर्दः स्वं स्वं धनं गोधनं च समादाय शनैः शनैः निर्यादेदि वयस्यांश्च गोवर्धनोद्धरः ते तमाहुश्च निर्गश्च धार यामोद्रिमोजसा यदि वादपरान् गोपान् गोवर्धनधरोहरिः तदर्थं च गिरिर्भारम् प्रादात्तेभ्यो महामनाः पतितास्तेन भारेण गोपबालाश्च निर्बलाः करेण तान् समुद्धाप्य स्वस्थाने पूर्ववद्गिरिम् सर्वेषाम् पश्यताम् कृष्णस्थापयामः सलीलया तदैव गोपी गणगोपमुख्याः सम्पूज्य कृष्णं नृपनन्दसूनुं गन्धाक्षताब्द्यैर्दधि दुग्धभोगैर्ज्ञात्वा परं नेमुरतीव सर्वे नन्दो यशोदा नृपरोहिणी च बलश्च सन्नन्दमुपाश्च वृद्धाः आलिङ्ग्य कृष्णं प्रददु धनानि शुभाशिशासम् युयुजोर्कृणार्थाः संश्लाघ्यतं गायनवाद्यतत्परा नृत्यन्त आरा नृपनन्तनन्दनम् आजक्मुरेव स्वगृहान् व्रजौकसो हरिं पुरस्कृत्य मनोरथं गदाः तदैव देवा ववृषुप्रकर्षिताः पुष्पै शुभै सुन्दरनन्दनोद्भवैः जगुर्यश्च श्रीगिरिराजधारिणो गन्धर्वमुख्यादिविसिद्धसङ्खाः इति श्रीगर्गसंहितायाम् श्रीगिरिराजखण्डे श्रीनारद बहुलाश्वसंवादे गोवर्धनोद्धरणम् नाम तृतीयोऽध्यायः ओम् अध्यायं फोर् गिरिराजखण्डचतुर्थोऽध्यायः सुरभिकृतं कृष्णाभिषेकम् श्रीनारद उवाच अथ देवगणै सार्धं शक्रस्तत्र समागतः गदमानो गिरौ कृष्णं रहसि प्रणनामः इन्द्र उवाच त्वं देवदेव परमेश्वरप्रभु पूर्णः पुराह्णपुरुषोत्तमोत्तमः परात् परस्त्वम् प्रकृते परो हरिर्मां पाहि पाहि द्युपदे जगत्पदे दशावतारो भगवांस्त्वमेव रिरक्षय धर्मगवां श्रुतेश्च अद्यैव जातपरिपूर्णदेवकंसादि दैत्येन्द्रविनाशनाय त्वन्मायया मोहितचित्तवृत्तिं मदोद्धतं मा हेलनभाजनं मां पिदेवपुत्रं द्युपदेक्षमस्व प्रसीदेवेश जगन्निवास ॐ नमो गोवर्धनोद्धरणाय गोविन्दाय गोकुलनिवासाय गोपालाय गोपालकदये गोपीजनभर्त्रे गिरिगजोद्धर्ते करुणानिधये जगद्विधये जगन्मङ्गलाय जगन्निवासाय जगन्मोहनाय कोडिमन्मद मन्मथाय वृषभानुसुधावराय श्रीनन्दराजकुलप्रदीपाय श्रीकृष्णाय परिपूर्णतमाय ते सङ्घ्यब्रह्माण्डपदये गोलोकधामधिषणाधिपदये स्वयं भगवदेशवराय तस्मै नमस्ते श्रीनारद उवाच यदि शक्रकृतं स्तोत्रं प्रादरुद्धाय यः पठेद सर्वासिद्धिर्भवे तस्य भवेद यदि स्तुत्वा हरिं देवं सर्वैर्देवगणैः सह कृताञ्जलिपुडो भूत्वा प्रणनामपुरन्दरः अथ गोवर्धने रम्ये सुरभिर्गौ समुद्रजा स्नापयामास गोपेशम् दुग्धधाराभिध्रात्मनः शुण्डादण्डैश्च दुर्भिश्च द्युङ्गाजलपूरितैः श्रीकृष्णम् स्नापयामास मत्त ऐरावधो गजः ऋषिभिः श्रुतिभिः सर्वैर्देवगन्धर्वकिन्नराः तुष्टुस्ते हरिम् राजन्हर्षिदाः पुष्पवर्षिणः कृष्णाभिषेके सञ्जाते गिरिर्गोवर्धनो महान् द्रवीभूतो वहद्राजन् हर्षानन्दादिदस्ततः प्रसन्नो भगवान् तस्मिन् कृतवान् हस्तपङ्गजं तद्धस्तचिह्नमद्यापि दृश्यते तद्गिरौ नृप तत्तीर्थम् च परम् भूधन्नराणाम् पापनाशनम् तदेव पादचिह्नम् स्यात् तत्तीर्थम् विद्धि मैथिल ये तावत्तस्य तत्रैव पादचिह्नम् बभूवः सुरभे पादचिह्नानि बभूवुस्तत्र मैथिल द्युगङ्गाजलपादेन कृष्णस्नानेन मैथिल तत्र वै मानसी गंगा गिरौ जादाखनाशिनी जादो नृभ जादौ गोविन्दकुण्डोद्रौ महापापहरपरः कदाचित्तस्मिन् दुग्धस्य स्वादुत्वं प्रतिपद्यते तत्र श्रोत्वा नरः साक्षात् गोविन्दपदमाप्नुयाद प्रदक्षिणीकृत्य हरिं प्रणम्य वै दत्वा बलिंस्तत्र पुरन्तरादयः जयध्वनिं कृत्य सुपुष्पवर्षिणो ययुत्सुरसौख्ययुधास्त्रिविष्टपम् कृष्णाभिषेकस्य कथाम् शृणोति यो दशाश्वमेधावभृदाधिकम् फलम् प्राप्नोति राजेन्द्रस एव भूयस परं पदं याधि परस्य वेधसः इति श्रीगर्गसंहितायाम् गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णाभिषेको नाम चतुर्थोऽध्यायः ओम् अध्यायम् फैव् गिरिराजखण्डपञ्चमोऽध्यायः कृष्णस्य वर्णदर्शने गोपगणानाम् सन्देहः विवादश्च श्रीनारद उवाच एकदा सर्वगोपालागोप्योनन्दसुतस्य तत् अद्भुतं चरितं दृष्ट्वा नन्दमाहुर्यशो मदीं गोपा ऊचुः हे गोपराजत्वदंश्ये कोऽपि जादो न चादृकनक्षमस्त्वं शिडां धर्तुं सप्ताकं ये यशोमदी क्व सप्तहायनो बाल क्वाद्रिराजस्य धारणम् तेन नो जाय महाबले अयम् बिभ्रग्गिरिवरम् कमलं गजराडिव उच्चिलीन्द्रम् यद्धा बालो हस्तेनैकेन लीलया गौरवर्णाय नंदत्वं नन्दत्वम् गौरवर्णधृक अयम् जातकृष्णवर्णय दत्कुलविलक्षणम् यद्दु वास्तु क्षत्रियाणाम् तु यदा तादृशो यथा बलभद्रेण दोषस्याच्चन्द्रवंशसमुद्भवे ज्ञाते त्यागम् करिष्यामो यदि सत्यम् न भाषसे गोपेषु चास्य वोत्पत्तिम् वद चेन्न कलिर्भवेद श्रीनारद उवाच श्रुत्वा गोपालवचनम् यशोदाभयविह्वला नन्दराजस्तदा प्राह गोपान् श्रीनन्द उवाच गर्गस्य वाक्यं हे गोपा वदिष्यामि समाहितः येन गोपगणा यूयं भवता सुगतव्यथाः ककारकमलाकान्तोरिकारो राम इत्यपि द्वीपनिवासकृद नकारो नारसिंहोऽयमकारो ह्यक्षरोऽग्निभुक विसर्गौ च तदाह्येतौ नरनारायणा वृषी सम्प्रलीनाश्च षट्पूर्णा यस्मिं शब्दे महात्मनि परिपूर्णतमे साक्षात् तेन कृष्णः प्रकीर्तितः शुक्लो रक्तस्तथापीदो वर्णोऽस्यानुयुगं धृतः द्वापरान्ते कले रादौ बालोयं कृष्णदां गतः तस्मात् कृष्ण युदि ख्यातो नाम्नायं नन्दनन्दनः वत्सवश्चेन्द्रियाणि दि तद्देवश्चित्त एव हि तस्मिन्नश्चेष्टदेशोऽपि वासुदेव यदि स्मृतः पृषभानुसुधा राधाया जाधा कीर्तिमन्दिरे तस्यापदिरयम् साक्षात् तेन राधापदि स्मृतः परिपूर्णसमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपदिर्गो लोके दाम्नि राजदे सोऽयम् तव शिष्युर्जादो भारावतरणाय च कंसादीनाम् वधार्थाय भक्तानाम् पालनाय अनन्तान्यस्य नामानि वेदगुह्यानि भारद लीलाभिश्च भविष्यन्ति तत्कर्मसु न विस्मयः इति श्रुत्वात्मजे गोपाक् सन्देहम् न करोम्यहकम् वेदवाक्यम् ब्रह्मभजप्रमाणं हि महीतले गोपावुचुः यद्यागतस्तव गृहे गर्गाचार्यो महामुनिः तत्क्षणे नामकरणेनाहूताज्ञादयस्त्वया स्वगृहे नामकरणम् भवता च कृतम् शिशोः तव चैतादृशीरीधिर्गुप्तम् सर्वम् गृहेऽपि यत् श्रीनारद उवाच एवम् वद्धम् तस्ते गोपानिर्गदानन्दमन्दिराद वृषभानुवरम् जग्मुक्रोधपूरितविग्रहाः वृषभानुवरं साक्षान्नन्दराजसहायकम् प्राहोर्गोपगणै सर्वे ज्ञादेर्मदसम्मन् समन्विताः गोपावूजुः वृषभानुवरत्वं वैज्ञादिमुख्यो महामनाः नन्दराजं त्यजज्ञादेर्हे भूपते। श्री वृषभानुवर उवाच हो दोशो नन्दराजस्य ज्ञातेस्तम् सन्ध्यजाम्यहम् गोपेष्टो ज्ञादिमुकुडो नन्दराजो मम प्रियः गोपौजुः न चेत्यजसि तम् त्यजामस्त्वाम् व्रज त्वद्गृहे वर्धिता योग्या महामुने प्रपदाज्ञाधिमुखेन सम्पदुन्मदचालिना न दत्तावरमुख्याय कलिषम् तव विद्यते अद्यत्वाज्ञादिसम्भ्रष्टम् पृथग्मन्यामहे नृप न चेच्छीघ्रम् नन्दरा जं त्यजत जमहामते श्रीवृषभानुरुवाच गर्गस्य वाक्यम् गेहोप वदिष्यामि समाहितः येन गोपगणा यूयम् भवदा सु गतव्यधाः परात्परः तस्मात् परो नास्ति जादो शिशुः भुवो भारावताराय कंसादिनां वधा यज ब्रह्मणा प्रार्थित कृष्णो बभूव जगदीतले श्रीकृष्णपट्टराज्ञा गो लोके राधिकाभिधा त्वद्गेहे सा वि सम् जाता त्वं न जानासीतां पराम् अहं न कारयिष्यामि मनयो नृप तयोर्विवाहो भविता भाण्डीरे यमुनातडे समीपे जनिर्जने सुन्दरे स्थले परमेष्टिसमागत्य विवाहं कारयिष्यति तस्माद्राधां गोपरविद्यार्थाङ्गीं परस्य च लोकचूडामणि साक्षाद्राज्ञीं गोलोकमन्दिरे यूयं सर्वेऽपि गोपाला गोलोकादागदा भुवि तद्धा गोपीगणागावो गोकुले राज्ञेचया यौवमुक्त्वा गदे साक्षात् गर्गाचार्ये महामुनौ तद्दीना दधराधायां सन्देहं न करोम्यकं वेदवाक्यं ब्रह्मवचप्रमाणं महीतले इति वथितं गोपाः किं भूय श्रोतुमिच्छ गर्ग इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुराश्वसंवादे गोपविवादो नाम पञ्चमोऽध्यायः ओ अध्यायम् सिक्स् गिरिराजखण्डषष्ठोऽध्यायः गोपकृतकृष्णविभूतिपरीक्षा श्रीनारद उवाच वृषभानुवरस्य दम्बच श्रुत्वा व्रचौकसख ऊजु पुनः शान्तिगदा विस्मिदा मुक्तसंशयाः गोपावूजुः समीचीनं वरो राजन् राधेयं तु हरिप्रिया तत्प्रभावेण ते दीर्घं वैभवम् दृश्यदे भुवि सहस्रशो गजामत्ता कोडिशोश्वाश्च चञ्चलाः राधाश्च देवदिष्णाभ्या शिबिका कोडिशुभाः कोडिशकोडिशो गावो हेमरत्नमनोहराः मन्दिराणि विचित्रानि रत्नानि विविधानि च सर्वम् सौख्यम् भोजनादिदृश्यते साम्प्रतम् तव कंसोऽभिदर्शितो जातो दृष्ट्वा ते बलमद्भुतम् कान्यकुब्जपदे साक्षात् भलन्तनृपस्य च जामादात्व जा महावीरकुबेर इव कोशवन् त्वत्समम् वैभवम् नास्ति नन्दराजगृहे क्वचिद् कृषीवलो नन्दराजो गोपतिर्दीनमानसः यदि नन्दसुतसाक्षात् परिपूर्णतमो हरिः सर्वेषाम् पश्यताम् नस्तत्परीक्षाम् कारय प्रभो श्रीनारद उवाच तेषाम् वाक्यम् तदश्रुत्वा वृषभानुवरो महान् चकारनन्दराजस्य वैभवस्य परीक्षणम् कोटिधामानि मुक्तानां स्थूलानां मैथिलेश्वर ये कैकायेषु का मुक्ताश्च कोटिमौल्या स्फुरत्प्रभाः निधाय तानि पात्रेषु वृणाह्नैः कुशलैर्जनैः सर्वेषां पश्यतां नृप नंदराजसभां ग वृणाना कुशला भृशं निधाय धामपात्राणि नन्दमासु प्रणम्यदं वृणाना ऊजुः विवाहयोग्यां नवकञ्चनेत्रां कोडीन्दु बिम्बद्युधिमादधानां विज्ञाय राधां वृषभानुमुख्यचक्रे विचारं सुवरं विचिन्वन् तवाङ्कजम् दिव्यमनङ्गमोहनम् गोवर्धनोद्धारणदोसामुद्भटम् संवीक्ष्य चास्मान् वृषभानुवन्दितः सम्प्रेषयाम सविशाम् पदे प्रभो वरस्य चाङ्गे भरणाय पूर्वम् मुक्ताफलानाम् निजयम् गृहाण युतश्च कन्यार्थमलम् प्रदेहि शैषा हि चास्मत्कुलजा प्रसिद्धिः श्रीनारद उवाच दृष्ट्वा द्रव्यं परो नन्दो विस्मितोऽपि विचारयन् प्रष्टुं यशोदां तत्तुल्यं नीत्वा चान्दपुरं ययौ चिरं दध्यौ तदानन्दो यशोदाच यशस्विनी यदन्मुक्ता समानं तु द्रव्यं नास्ति गृहे मम लोके लज्जागता सर्वा हासस्या चेद्धनो धृतम् किम् कर्तव्यम् तत्प्रति यच्छीकृष्णोद्वाहकर्मणि तदो योग्यं तद्ग्रहणम् पश्चात्पर्यम् धनागमे एवम् चिन्तयतस्तस्य नन्दस्यैव यशोदयात् अलक्ष्य आगतस्तत्र भगवान् वृजिनार्दनः नीत्वा दामशतं तेषु बहिः क्षेत्रेषु सर्वदा मुक्ताबलानि चैकैकम्प्राक्षिपत्स्वकरेण वै यथा बीजानि चान्नानां स्वक्षेत्रेषु कृषीबलः अधनन्दोऽपि गणयन् कलिकानि चयं पुनः न्यूनं च तद्दृष्ट्वा सन्देहं जगामः श्रीनन्द उवाच नास्ति पूर्वं यत् समानं तत्राभिन्यूनतां गतम् अहो कलं गोपविता ज्ञादिषु स्वेषु सर्वदः अधवा क्रीडनार्थ हि कृष्णो यदि गृहीतवान् बलदेवो धवा बालस्थौ पृच्छे दीनमानसः श्रीनारद उवाच युद्धम् विचार्य नन्दोऽपि कृष्णम् पप्रच्छ सादरम् प्रहस्सन् भगवान्नन्दम् प्राह गोवर्धनोद्धरः श्रीभगवानुवाच कृषीवलावयम् गोपा सर्वबीजप्ररोहकाः क्षेत्रे मुक्ताप्रबीजानि विकीर्णि कृदवाहनम् श्रीनारद उवाच श्रुत्वा भस्वात्मजेनोक्तं तं निर्भत्स्य ब्रजेश्वरः तानि नेतुं तत् सखिदस्तत्क्षेत्राणि जगामः तत्र मुक्ताफलानां तु शाकिनशतशुभाः दृश्यन्ते दीर्घवपुषो हरित् पल्लवशोभिताः स्तपकानां तु कोडिशकोडिशो नृप सङ्घाविलम्बिदारे ज्योर्ज्योतिं शीवनभस्थले तदाधिहर्षितो नन्दो ज्ञात्वा कृष्णं परेश्वरं मुक्ताफलानि दिव्यानि पूर्वस्थूल समानि च तेषां तु कोडिबाराणि निधाय शकटेषु च ददौ तेभ्यो वृणानेभ्यो नन्दराजो व्रजेश्वरः ते, ते गृहीत्वा तत्सर्वं वृषभानुवरं गदाः सर्वेषां शृण्वदां नन्दवैभवम् प्रजगुर्नृप तदाधिविस्मिता सर्वे ज्ञात्वा नन्दसुधम् हरिम् वृषभानुवरम् नेमुर्निःसन्देह व्रजौकसः राधा हरे प्रिया ज्ञादा राधायाश्च प्रियो हरिः ज्ञातो व्रज जनै सर्वैस्तदिनान् मैथिलेश्वर मुक्कुदाक्षेपकृतो यत्र हरिणानन्दसूनूना मुक्कुदा सरोवरस्तत्र जातो मैथिलतीर्थराड एकं मुक्ताफलस्यापि तत्र करोति यः लक्ष मुक्तादानफलं समाप्नोति न संशयः एवं ते कथितो राजन् गिरिराजमहोत्सवः भुक्तिमुक्तिप्रदो नृणां किं भूय श्रोतुमिच्छसि यदि श्रीगर्गसंहितायां गिरिराजखण्डे श्री नारद बहुलाश्वसंवादे हरिपरीक्षणम् नाम षष्ठोऽध्यायः ओम् अध्यायम् सेवेन् गिरिराजखण्डसप्तमोऽध्यायः गोवर्धनस्य अङ्गीभूततीर्थवर्णनम् श्रीबहुलाश्व उवाच कति मुख्यानि तीर्थानि गिरिराजे महात्मनि एतद् ब्रूहि महायोगिन् साक्षात्त्वं दिव्यदर्शनः श्रीनारद उवाज राजन् गोवर्धनसर्वसर्वतीर्थवरस्मृतः वृन्दावनञ्च गोलोकमुकुटोद्रिप्रपूजितः गोपगोपीगवाम् रक्षा प्रथकृष्णप्रियो महान् ब्रह्मा तपत्रो यस्य स्मतीर्थवरस्तुकः इन्द्रयागम् विनिर्भत्स्य सर्वैर्निजजनैः सह यत्पूजनम् समारेभे भगवान् भुवनेश्वरः परिपूर्णतमसाक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्घ्यब्रह्माण्डपतिर्गोलोकेश्व परात्परः यस्मिंश्चिद् सदा क्रीडामर्भकैः सह मैथिल करोति तस्य माहात्म्यं वक्तुं नालं चतुर्मुखः यत्र वै मानसि गङ्गामहापापौखनाशिनी गोविन्दकुण्डं विशदं शुभं चन्द्रसरोवरं राधाकुण्डकृष्णकुण्डो ललिताकुण्ड एव च गोपालकुण्डस्तत्रैव कुसुमाकर एव च श्रीकृष्णमौलिसंस्पर्शान्मौलि चिह्ना शिलाभवद तस्या दर्शनमात्रेण देवोन्व मौलिर्भवेज्जनः यस्यां शिलायां कृष्णेन चित्राणि लिखितानि च अद्यापि चित्रिता पुण्या नाम्ना चित्रशिला गिरौ यां शिलामर्भकै कृष्णो वादयन् क्रीडने रथः वादनी सा शिला जादामः यत्र श्रीकृष्णचन्द्रेण गोपालै सह मैथिला कृदा वै कन्दुकक्रीडा तत्क्षेत्रं कन्दुकं स्मृतं दृष्ट्वा शक्रपदं यादि नत्वा ब्रह्मपदं च तद विलुठन् यस्य रजसा साक्षाद्विष्णुपदं व्रजेद गोपानमुष्णित्र चोरयामा समाधवः औष्णीषं नाम तत्तीर्थं महापापहरं गिरौ तत्रैकदा वै विनिर्गदो विनिर्गतो गोपवधूसमूहः श्रुत्वा क्वण तन्मार्ग तन्मार्गमनङ्गमोही त्वं शीधरो वेत्रवरेण गोभै पुरस्त तासाम् विनिधाय पादम् मह्यम् करा दानधनाय दानम् देहीधि गोपीर्निजगादमार्गैर्गोप्य ऊचुः वक्रस्त्वमेवासि समास्तितः पथि गोपार्भकैर्गोरसलम्बडो भृश्यम् मात्रा च पित्राः सह कारयामो बलाद्भवन्तं किलकं सबन्धने श्रीभगवानुवाच कंसं हनिष्यामि महोग्रदण्डं सबान्धवम्मेशपतो गवां च एवं करिष्यामि यतो पुरे बलान्वेष्ये सदा कं गिरिराजभूमेः श्रीनारद उवाच युत्युक्त्वा दधि पात्राणि बालैर्नीत्वा पृथक् पृथक् भूपृष्ठे बोधयामास सानन्दं नन्दनन्दनः अहो एष दृष्टो निर्भयो नन्दनन्दनः निरङ्कुशो भाषणीयो वीरपुरे बलः ब्रुवामहेयशोदाय नन्दाय च किलाद्य वै एवं वदन्त्यस्ता गोप्य सस्मिता प्रयुर्गृहान् नीपपालाशपत्राणां कृत्वा द्रोणानि माधवः जखासबालकैः सार्धं पिच्छलानि दधीनि च द्रोणाकाराणि पत्राणि बभूवुशाखिनां तदा तत्क्षेत्रम् च महा पुण्यम् द्रोणं नाम नृपेश्वर दधि तत्र कृत्वा पीत्वा पत्रधृतम् दधि नमस्कुर्यान्नरस्तस्य गोलोकान्नच्युतिर्भवेद् नेत्रे त्वाच्चाद्य भून् माधवोर्भकैः तत्र तीर्थम् लौकिकम् च जातम् पापप्रणाशनम् कदम्बखण्डतीर्थम् चलीलायुक्तम् हरे सदा तस्य दर्शनमात्रेण नरो नारायणो भवेद् यत्र वैराधयारास्ये शृङ्गारो कार्यमैथिल तत्र गोवर्धने स्थले शृङ्गारमण्डलम् येन रूपेण कृष्णेन धृतो गोवर्धनो गिरिः विद्यते तत्र नृप श्रृङ्गारमण्डलम् अब्दाश्चतुःसहस्राणि तथा चाष्टौ शतानि च गदास्तत्र कले राधौ क्षेत्रे शृङ्गारमण्डले गिरिराजगुहामध्या सर्वेषाम् पश्यताम् नृप स्वदसिद्धिम् च तद्रूपम् हरे प्रादुर्भविष्यति श्रीनाथम् देवदमनम् तम् वदिष्यति सज्जनाः गोवर्धने गिरौ राजन् सदा लीलाम् करोति यः ये करिष्यन्ति नेत्राभ्याम् तस्य रूपस्य दर्शनम् ते कृतार्था भविष्यन्ति मैथिलेन्द्रकलौ जनाः जगन्नाथो रङ्गनाथो द्वारकानाथ एव च बद्रीनाथश्च दुष्कोणे भारतस्यापि पर्वते मध्ये गोवर्धनस्यापि नाथोऽयं वरुधदे नृप पवित्रे भारते वर्षे पञ्चनाथा सुरेश्वराः सद्धर्म मण्डपस्तम्भाणपरायणाः तेषां तु दर्शनं कृत्वा नरो नरायणो भवेद् चतुर्नां भुविनाथानां कृत्वा यात्रा नरसुधिः न पश्येद्देवदमनं सनयात्रा फलं लभेद श्रीनाथं देवदमनं पश्येद् गोवर्धने चतुर्णां भुविनाथानां यात्राया फलमाप्नुयाद ऐरावतस्य सुरभे पादचिह्नानि यत्र वै तत्र नत्वा नरः पापि वैकुण्ठं श्रीकृष्णस्य महात्मनः दृष्ट्वा नत्वा कश्चित् साक्षात् कृष्णपदं व्रजेद एतानि नृपतीर्थानि कुण्डाध्यायतनानि च अङ्गानि गिरिराजस्य किं भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायाम् गिरिराजखण्डे श्रीनारद बहुलाश्वसंवादे गिरिराजतीर्थवर्णनम् नाम सप्तमोऽध्यायः ओम् अध्यायम् एट् गिरिराजखण्ड अष्टमोऽध्यायः गिरिराजविभूतिवर्णनम् श्रीबहुलाश उवाच केषु केषु तदङ्गेषु किं किं तीर्थं समाश्रितं वददेवमहादेवत्वं परावरवित्तमः श्रीनारद उवाच यत्र यस्य प्रसिद्धि यत्र यस्य प्रसिद्धिस्या स्यात् तदङ्गं परमं विदुः क्रमदो नास्त्यङ्ग च योगिरिराजस्य मैथिल यथा सर्वगतं ब्रह्मसर्वाङ्गानि च तस्य वै विभूतेर्भावदशश्वतथा वक्ष्यामि मानदा शृङ्गारमण्डलस्याधो मुखं गोवर्धनस्य च यत्रान्नकूढं कृतवान् भगवान् व्रजवासिभिः नेत्रे वै मानसी गङ्गानासचन्द्रसरोवरः गोविन्दकुण्डो ह्यधरच्चिबूकं कृष्णकुण्डकः राधाकुण्डं तस्य जिह्वा कपो लौ ललितासरः गोपालगुण्डकर्णश्च कर्णान्दकुसुमाकरः मौलिचिह्नाशिला तस्य ललाडं विद्धिमैथिल शिरश्चित्रशिला तस्य ग्रीवा वैवादनीशिला कान्दुकम् पार्श्वदेशम् च औष्णीषम् कडिरुच्यदे द्रोणतीर्थम् पृष्ठदेशे लौकिकम् चोदरे स्मृदम् कदम्बखण्डमुरसि जीवशृङ्गारमण्डलम् श्रीकृष्णपादचिह्नम् तु मनस्तस्य महात्मनः हस्तचिह्नं तदा बुद्धिरैरावदपदं पदं सुलभे पादचिह्नेषु पक्षौ तस्य महात्मनः पुच्छकुण्डे तथा पुच्छं वत्सकुण्डे बलं स्मृतं रुद्रकुण्डे तथा क्रोधं कामं शक्रसरोवरे कुबेरतीर्थे चोद्योगम् ब्रह्मतीर्थे प्रसन्नतां यमतीर्थे ह्यहङ्कारम् वदन्तीर्धम् पुराविदः एवमङ्गानि सर्वत्र गिरिराजस्य मैथिल कथितानि मया तुभ्यं सर्वपापहराणि च गिरिराजविभूतिं च यश्रुनोधि नरोत्तमः स गच्छेद्धामपरं गोलोगं योगिदुर्लभम् समुद्धितो वक्षसो हरिवक्षसो वर्धनो नाम गिरीन्द्र राजराड समागदो ह्यत्र पुलस्य तेजसा यद्दर्शना जन्म पुनर्न विद्यते यदि श्रीगार्गसंहितायां श्री श्रीनारद बहुलाश्वसंवादे गिरिराज विभूदी वर्णनं ओम्